अह्ना यदेनः क्रियते इन्द्रियैर्मनसापि वा ज्ञानादज्ञानतोवापि प्रकरोति नरश्चयत् तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते भरतानां महाभारतं उच्यते निरुक्तमस्य यो वेदसर्वपापैः प्रमुच्यते भरतानां यतश्चायमितिहासो महाद्भुतः महतोह्येन ह्येन सोमर्त्यान् मोचयेदनुकीर्तितः त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः नित्योत्थितः शुचिः शक्तो महाभारतमादितः तपोनियममास्थाय कृतमेतन्महर्षिणा तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदं कृष्ण प्रोक्तामि मां पुण्यां भारतीमुत्तमां कथाम् श्रावयिष्यन्ति ये विप्राये च श्रोष्यन्ति मानवाः सर्वथा वर्तमानावै न शोच्या कृता शोच्याः कृताकृतैः नरेण धर्मकामेन सर्व श्रोतव्य इत्यपि निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः यां श्रुत्वैव महापुण्यमितिहासमुपाश्नुते शृण्व्राद्धः पुण्यशीलः श्रावयश्चेदमद्भुतम् नरः फलमवाप्नोति राजसूयाश्वमेधयोः यथा समुद्रो भगवान यथा मेरुर्महागिरिः उभौ ख्यातौ रत्ननिधि तथा भारतमुच्यते इदं हि वेदैः समितं पवित्रमपि श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनं य इदं भारतं राजन्वाचकाय प्रयच्छति तेन सर्वा महीदत्ता भवेत् सागरमेखला पारीक्षितकथां दिव्यां पुण्याय विजयाय च कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमां त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः महाभारतमाख्यानं कृतवानिदमद्भुतं धर्मे चार्थे च चा कामे च मोक्षे च भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न क्वचित् इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि महाभारतप्रशंसायां द्विषष्टितमोऽध्यायः